स्त प्राप्योऽप्यगम्यो झटिति गुणिजनस्येव धावम् गजेन्द्रौ क्रीडन् आपात्य भूमौ पुनरभिपततस्तस्य दन्तौ सजीवौ मूलादुन्मूल्य तन्मूलदमहितमभौतिकास्यात्ममित्रे पादा सुंहारमे विललित विरचितम् राधिकायै दिशे